कृष्णयजुर्वेदे क्रमपाठे पञ्चमकाण्डे षष्ठः प्रश्नः प्रारम्भः वो हिरण्यवर्णाश्रुतयः हिरण्यवर्णा इति हिरण्यावर्णः त्रिरः पावकाः पावकायासु यासु जातः जातः कश्यपः कश्यपो यासु यास्विन्द्रः इन्द्र इति इन्द्रः पग्निङ्गाः या गर्भम् गर्भम् दधिरेधिरे विरूपाः विरूपास्ताः विरूपा इतिरूपाः प्राणः आपः आपश्यन् षगस्योनाः स्योना भवन्तु भवन्ति भवन्तु राजा राजा वरुणः वरुणव याति याति मध्ये मध्ये सत्यावृते सत्यावृते अपश्यन् सत्यावृते इति सत्यावृते अवपश्यन् जनानाम् अवपश्यन्नित्यवापश्यन् जनानामिति जनानाम् अधश्चुतश्रुतयः अधुश्चित इति मधूषितः याः पावकाः पावकायताः ता नः नावः आवर्षम् षड्स्यः स्योना भवन्तु देवाः देवादिवि कृण्वन्ति कृण्वन्ति भक्षम् भक्ष्याः या मन्धरिक्षे मन्धरिक्षे बहुधा बहुधा भवन्ति बहुधेति बहुधा याः पृथिवीम् पृथिवीम् परिसा यसो नन्दि नन्त्रिशुक्राः शुक्रास्ताः तानः नावः आपर्षम् शग्रस्यो नाः स्योना भवन्तु भवन्त्विति भवन्तु शिवेन मा चक्षुषा चक्षुषा पश्यत पश्यतापः आपृशिवया शिवया तनुवा तनुवोप मस्पृशत स्पृशदतुषम् तुषम् मे मैदि मे सर्वागुम् अग्नीन् अग्निगुणासृषः अप्सुषदो हुवे अप्सुषत इत्यप्सुषदः हुेवः वो मयि मयि वर्चः वर्चो बलम् बलमोजः ओजो निधत्ता धर्तेति धत्ता यद अदः सम्प्रयतीः संप्रयती, संप्रयती अनदता हरे हत इति हरे तस्मादा आ नद्यः नद्यो नामस्थ स्थता तावः वो नामानि नामानि सिन्धव इति सिन्धवः यत् प्रेषिताः प्रेषिता वरुणेन प्रेषिता इति प्रायषिताः वरुणेन ताः ताः शीभम् शीभगुम् समवल्गत समवल्गतेति समवल्गत तदा आप्नोत् आप्नोदिन्द्रः इन्द्रो वः को यदीः यदीस्तस्मात् आपो अनु अनुस्थन स्थने स्थन अपकामग्रस्यन्द्रमानाः अपकाममित्यपकामम् स्यन्दमाना अवीवलत अवीवलतवः वोहितम् हिकमिति हिकम् इन्द्रो शक्तिभिर्देवीः शक्तिभिरिति शक्तिभिः देवीस्तस्मात् तस्माद्वाह नामवः वोहितम् हितमिति हितम् देवो अपि अप्यतिष्ठत् अतिष्ठत् स्यन्दमानाः स्यन्दमाना यथावशम् महीरिति इति तस्मात् तस्मादुदकम् उदकमुच्यते उच्यत इत्युच्यते आपो भद्राः भद्राघृतम् घृतमित् वितापः आप आसुः आसुरग्नेशोमौः अग्नेशोमौ विभ्रति अग्नेशोमावित्यग्नेशोमौ विभ्रत्यापः आपयत् इत्ताः पायदिताः तीव्रो रसः रसो मधुपृचाम् मधुपृचामरङ्गमः मधुपृचामिति मधुवृचाम् अरङ्गमः अरङ्गम इत्यरङ्गमः आमाह मा प्राणेन प्राणेन सह प्राणेनेति प्राणेन सह वर्चसा वर्चसा गन् गन्विति गन् आदिर् इतिपश्यामि पश्याम्युत उत वा शृणोमि शृणोम्या आमाह माघोषः घोषो गच्छति दि, गच्छति वाग् वाङ्महः मासाम् आसामित्यासाम् भेजानो भे अमृतस्य अमृतस्य तर्हि तर्हि हिरण्यवर्णाः हिरण्यवर्णा अतृपम् हिरण्यवर्णा इति हिरण्यवर्णाः तदृपम् यदा यदा वः वैदिवः आपो हि तिष्ठ स्थामयो भुवः यो भुवस्ताः यो भुवैति मयः भुवः तानः न ऊर्जे ऊर्जे दधातन धातनेति दधातन महेरणाय रणाय चक्षसे शिवतमः शिवतमो रसः रतस्तस्य तस्य भाजयत भाजयतेह इहनः नैदिनः विशतिरिव इव मातरः मातर इति मातरः तस्मारम् अरङ्गमाम गमामोह वो यस्य यस्य क्षयाय क्षयाय जिन्वथ जिन्वथेति आपो जनयथ जनयथा च नः नैदिनः यविश्रयस्व श्रयस्वान्तरिक्षे अन्तरिक्षे यतस्व यतस्व पृथिव्या पृथिव्यासम् सम्भव अपब्रह्मवर्चसम् ब्रह्मवर्चसमसि ब्रह्मवर्चसमिति ब्रह्मवर्चसम् असि ब्रह्मवर्चसाय ब्रह्मवर्चसाय त्वा ब्रह्मवर्चसायति ब्रह्मवर्चसाय चेदित्वा अपाङ्ग्रहान् ग्रहान् गृह्णाति गृह्णात्येतत् एतद्वाव वावराजसूयम् राजसूयञ्चत् राजसूयमिति राजासूयम् यदेते एते ग्रहाः ग्रहाः सवः सवोऽग्निः अग्निर्वर्णसवः वरुणसौ राजसूयम् वरुणसव इति वरुणासवः राजसूयमग्निसवः राजसूयमिति राजासूयम् अग्निसवश्चित्यः अग्निसव इत्यग्निसवः चित्यस्ताभ्याम् ताभ्यामेव एव सूयते सूयतेऽोः अथो उभौ अथो इत्यथोः उभावेव एव लोकौ लोकामभि अभिषयति जयति यश्च राजसूयेन राजसूयेने जानस्य राजसूयेनेति राजासूयेन यानस्य यः यश्च साग्नितः अग्निजितावह अग्निजित इत्यग्नीजितः आपो भवन्ति भवन्त्यापः आपो वै पाग्नेः अग्नेर्भ्रातृव्याः भ्रातृव्यायद् यदवः अपोऽग्नेः अग्नेरधस्ताद् रथस्तादुपदधारि उपदधारि भ्रातृव्याभिभोज्यै उपदधारीत्युपदधारि भ्रातृव्याभिभोज्यै भवति भ्रातृव्याभिभोत्या इति भ्रातृव्याभिभूति भवत्यात्मनाः आत्मनापराः रास्य अस्य भ्रातृव्यः भ्रातृव्यो भवति भवत्यमृतम् अमृतम् वा आपः आपस्तस्मात् तस्मादद्भिः अद्भिरवतान्तम् अद्भिरित्यभिः अवतान्तमभि अवतान्तरित्रान्तम् अभिषिञ्चन्ति सिञ्चन्ति न नार्तिम् आर्तिमा आर्च्छति पृच्छति सर्वम् सर्वमायुः आयुरेति यस्य एता उपधीयन्तेः उपधीयन्ते यः उपधीयन्त इत्युपाधीयन्तेः यपो उचैनाः एवम् एवम् वेद वेदान्नम् अन्नम् वै वा आपः पशवः पशव आपः आपोऽनम् अम्नम् पशवः पशवो अन्नादः अन्नादः पशुमान् अन्नाद इत्युन्नादः भवति पशुमान् इति पशुमान् भवर्यस्य एता उपधीयन्तेः उपधीयन्ते यः उपधीयन्त इत्युपाधीयन्ते यको उचीनाः येना एवम् एवम् वेद एतद्वादश द्वादश भवन्ति भवन्ति द्वादश द्वादशमासाः मासाः संवत्सरः संवत्सरः संवत्सरेण संवत्सर इति संवत्सरः संवत्सरेणैव संवत्सरेण पात्राणि पात्राणि पात्रे पात्रे वै वा अन्नम् अन्नमद्यते मद्यते स योनि सयोऽन्येव स योनितिसा योनि एवान्नम् अन्नमव अवरुन्धे वृन्ध आ द्वादशाद्वादशात् पुरुषात् पुरुषादन्नम् अन्नवत्ति अत्यथोः अथो पात्रात् अथो इत्यथोः पात्रान्न एता उपधीयन्ते उपधीयन्ते यः उपधीयन्तैत्युपाधीयन्ते यगो उच चैनाः येना एवम् एवम् वेद वेदकुम्भाः कुम्भाश्च च कुम्भीः कुम्भीश्च च मिथुनानि मिथुनानि भवन्ति भवन्ति मिथुनस्य मिथुनस्य प्रजाति प्रजात्यैप्रा प्रजात्यादिप्राजाती प्रजयाः प्रजया ऋषिभिः पृथेरि प्राजयः पशुभिर्मिथुनैः पशुभिरिति पशुभिः मिथुनैर्जायते जायते यस्य जाय एता उपधीयन्ते उपधीयन्ते यः उपधीयम् रैत्यपाधीयन्ते यौ चेनाः येना एवम् एवम् वेद वेदशुगशुब्ै वा अग्निः अग्निः सह सोऽध्वर्यम् अध्वर्यम् यजमानम् यजमानम् प्रजाः प्रजा इति प्राजाः सुजार्पयति अर्पयति यत् यदपः अप उपदधाति उपदधाति शुचम् उपदधातीत्युपदधाति शुचमेव एवास्य तस्य शमयति शमयति न नार्तिम् आर्तिमा आर्च्छति पृच्छत्यद्धर्युः अध्वर्युर्न न यजमानः यजमानः श्राम्यन्ति श्राम्यन्ति प्रजाः प्रजा प्रजा इति यत्रैताः एता उपधीयन्ते उपधीयन्तेपाम् उपधीयन्ते इत्युपाधीयन्ते अपाम् वै वा एतानि एतानि हृदयानि हृदयानि यत् यदेताः यत यत एतावः आभूयत् यदेताः यत एतावः अपौ उपदधाति उपधाति दिव्याभिः उपदधातीत्युपादधाति दिव्याभिरेव ए वै नाः येनाः संसृति सृजतिवर्षुगः वर्षकः पर्जन्यः पर्जन्यो भवति भवति यः यो वै वा एतासाम् एतासामायतनम् आयतनम् गृप्तिम् आयतनमिद्या आयतनम् गृप्तिम् वेद वेदायतनवान् आयतनवान् भवति आयतनवानित्यायतनावान् भवति कल्पते कल्पतेऽस्मै अस्मादनुसीतम् अनुसीतमुप अनुसीतमित्यनुसीतम् उपदधाति दधात्येतत् वा आसाम् आसामायतनम् आयतनमेषा आयतनमिद्या एषा कृप्तिः गृप्तिर्यः एवम् एवम् वेद वेदायतनवान् आयतनवान् भवति आयतनवानित्यायतनावान् भवति कल्पते कल्पतेऽस्मै अस्मै द्वन्द्वम् द्वन्द्वमन्याः द्वन्द्वमिति द्वम् द्वम् अन्या उप उपदधाति दधाति चतस्रः चतस्र मध्ये मध्ये धृत्यै धृत्या अन्नम् अन्नम् वै वा इष्टकाः इष्टकारेतद् एतत्खलु खलु वै वै साक्षादिसाक्षात् अन्नम् यत् यदेशः एष चरुः चरुर्यत् यदेतम् एतञ्चरुम् चरुमुपदधाति उपदधाति साक्षात् उपदधातेत्युपदधाति साक्षादेव साक्षादीतिसाक्षात् एवास्मै अस्मान्नम् अन्नमव अपवृन्धे वृन्धे मध्यदः मध्यत उप उपदधाति उधातिमध्यदः मध्यत एव एवास्मै अस्मान्नम् अन्नम् दधाति दधाति तस्मात् तस्मान्मध्यतः मध्यतोऽन्नम् अन्नमध्यते लद्यते बारहस्पत्यः वारहस्पत्यो भवति भवति ब्रह्म ब्रह्म वै मयि देवानाम् देवानाम् बृहस्पतिः बृहस्पतिर्ब्रह्मणा ब्रह्मणैव एवास्मै तस्मान्नम् अन्नमव अवृन्धे रन्धे ब्रह्मवर्त्यसम् ब्रह्मवर्त्यसमसि ब्रह्मवर्त्यसमिति ब्रह्म वर्त्यसम् असि ब्रह्मवर्चसाय ब्रह्मात्सायत्वा ब्रह्माकसायेति ब्रह्मात्साय वेति इत्याह आह तेजस्वी तेजस्वी ब्रह्मवर्चसी ब्रह्मवर्चसी भवति ब्रह्मवर्चसीति ब्रह्म वर्चसी भवति यस्य यस्य एषः एष उपधीयते उपधीयते यः उपधीयत वेद वेदेति वेद भूतेष्टका उपभूतेष्टका इति भूताष्टकाः उपदधाति यत्र अत्र तत्रा वै अत्रात्रेत्यत्र अत्र वै मृत्युः मृत्युर्जायते जायते यत्र यत्र यत्र यत्रैव यत्र यत्रेत् यत्र यत्र एव मृत्युः मृत्युर्जायते जायते ततः तत एवैनम् एनमव अवयजते यजरेतस्मात् तस्मादग्निजित् सर्वम् अग्निजिदित्यग्नेजित् सर्वमायुः आयुरेति सर्वे सर्वैः यस्य तस्य मृत्यवः मृत्यवोऽवेष्टाः अवेष्टास्तस्मात् अवेष्टा इत्यवा इष्टाः तस्मादग्निचित् अग्निचिन्न अग्निचिदित्यग्निचित् अभिचरितवै अभिचरितवै प्रत्यग् अभिचरितवा इत्यभिचरितवै प्रत्यगेनम् एनमभिचारः अभिचारश्रृमते अभिचार इत्यभिचारः श्रृणते श्रूयते श्रूयते वै वा एषयः ग्निम् अग्निम् चिनुते चिनुते देवसुवाम् देवसुवामेतानि देवसुवामिति देवासुभाम् एतानि हवीगुंषि हवीगुंषि भवन्ति भवन् एतावृन्तः एतावृन्तो वै वै देवानाम् देवानागुंसवाः सवास्ते तयेव एवास्मै अस्मै सवान् सवान् प्रा प्रयच्छन्ति यच्छन्ति ते तयेनम् एनगुंसुवन्ते सुवन्ते सवः सवोऽग्निः अग्निर्वर्णसवः वरुणसवो राजसूयम् वरुणसव इति वरुणासवः राजसूयम् ब्रह्मसवः राजसूयमिति राजासूयम् ब्रह्मसवश्चित्यः ब्रह्मसव इति ब्रह्मासवः चित्यो देवस्य देवस्य त्वा त्वा सवितुः इत्याह आह सवितुर्प्रसूदः सवितृप्रसूद एवैनम् एनम् ब्रह्मणा ब्रह्मणा वेवराभिरभि अभिषिञ्चति सिञ्चत्यन्नस्यान्नस्य अन्नस्यान्नस्याभि अन्नस्यान्नस्येत्यन्नस्याषिञ्चति सिञ्चत्यन्नस्यान्नस्य अन्नस्यान्नस्यावृद्धिः अन्नस्यान्नस्येत्यन्नस्य अन्नस्य अवरुद्धिः पुरस्ताद् अवरुद्ध्या इदरावृद्धिः पुरस्तात् प्रत्यञ्चम् प्रत्यञ्चमभि अभिषिञ्चति सिञ्चति पुरस्ताद् पुरस्ताद्धिप्रतीचीनम् प्रतीचीनमन्नम् नम, अन्नमद्यतेः अद्यते शीर्षतः शीर्षतोभि अभिषिञ्चति सिञ्चति शीर्षतः शीर्षतोभिः शीर अन्नमद्यते अद्यत आ मुखात् मुखादन्ववःस्रावयति अन्ववःस्रावयति मुखतः अन्ववःस्रावयति इत्यनो अवस्रावयति मुखर एव एवास्मै अस्मान्नाद्यम् अन्नाद्यम् दधाति अन्नाद्यमित्युन्नाद्यम् दधात्यग्नेः अग्नेस्त्वाह त्वासाम्राज्येन साम्राज्येनाभिसाम्राज्येनेति साम्राज्येन अभिषिञ्चामि सिञ्चामीति इत्याह आहैषः एष वै त्वा अग्नेः अग्नेः सवः तेनैव एवैनम् एनमभि अभिषिञ्चति सिञ्चति गृहस्पतेः बृहस्पते स्वा तासाम्राज्येन साम्राज्येनाभि साम्राज्येनेति साम्राज्येन अभिषिञ्चामि सिञ्चामीति ब्रह्म ब्रह्म वै वयि देवानाम् देवानाम् बृहस्पतिः एवैनम् एनमपि अभिषिञ्चति इन्द्रस्य इन्द्रस्य त्वा साम्राज्येनाभि साम्राज्येनेति साम्राज्येन अभिषिञ्चामि सिञ्चामीति इत्याह ताहेन्द्रियम् इन्द्रियमेव एवास्मिन् अस्मिन्नुपरिष्टाद् उपरिष्टाद् दधाति दधात्येतत् एतद्वै वैराजसूयस्य राजसूयस्य रूपम् राजसूयस्येति राजासूयस्य रूपं यः य एवम् एवम् विद्वान् विद्वानग्निम् अग्निम् चिनते चिनत उभावेव एव लोकौ लोकावभि लोकाव अभिजयति जयति यः यश्च स राजसूयेन राजसूयेने जानस्य राजसूयेनेति यश्च साजितः अग्निशित इन्द्रस्य इन्द्रस्य सुषुवाणस्य सुषुवाणस्य दशधा दशधेन्द्रियम् दशधेति दशाधा इन्द्रियम् वीर्यम् वीर्यम् पराः परापतत् अपतद्धत् देवाः सौत्रामण्या सौत्रामण्या सम् समभरन् अभरन् सूयतेः एषयः योऽग्निम् अग्निम् चिनुते चिनुते अग्निम् चित्वा सौत्रामण्या सौत्रामण्या चेत चेतेन्द्रियम् इन्द्रियमेव एव वीर्यम् वीर्यम् संहृत्य संहृत्यात्मन् संहृत्य इति संहृत्य धत्ते धत्त सजोरब्दः सजोरिति साजोः रब्दोयावभिः अयावभिः सजोः अयावभिरित्रियाभिः सजोरुषाः सजोरितिसाजोः वृषा अरुणेभिः अरुणेभिः सजोः सजोः सूर्यः सजोरितिसाजोः सूर्य एतशेन एतशेन सजोषौ सजोषा अश्विनाः सजोषादिसाजोषौ अश्विनादगुंसोभिः तगुंसोभिः सजोः तगुंसोभिरिचितगुंसहाभिः सजोरग्निः सजोरितिसाजोः अग्निर्वै ईश्वानरः वैश्वानर इडाभिः इडाभिर्घृतेन घृतेन स्वाहा स्वाहा संवत्सरः संवत्सरो वै संवत्सर इति संवत्सरः वा अब्दः अब्दो मासाः मासा अयावाः अयावा उषाः उषा अरुणि अरुणि सूर्यः सूर्य एतशः इमे इमे अश्विनाः इमे अश्विना संवत्सरः संवत्सरो अग्निः संवत्सर इति संवत्सरः अग्निर्वैश्वादरः वईश्वादरः पशवः पशव इडाः इडापशवः पशवो घृतम् घृतम् संवत्सरम् संवत्सरम् पशवः संवत्सरमिति संवत्सरम् पशवोनु अनुप्रजायन्ते जायन्ते संवत्सरेण संवत्सरेणैव संवत्सरेणेति संवत्सरेण एवास्मै अस्मै पशून् पशून्प्रजनयति जनैति दर्भस्तम्बे दर्भस्तम्बे जुहोति दर्भस्तम्ब इति दर्भास्तम्बे जुहोदि यत् यद्वै वा अस्याः अस्या अमृतम् अमृतम् यत् यद्वीर्यम् वीर्यम् तद्दर्भाः दर्भास्तस्मिन् तस्मिन् जुहोदि जुहोदि त्व त्वयैव एव जायते अन्नादो भवति अन्नाद इत्यन्नादः भवति यस्य यस्यैवम् एवम् जुह्वति वै देवताः देवता अग्नेः अग्नेः पुरस्ताद्भागाः पुरस्ताद्भागास्ताः पुरस्ताद्भागादि प्रस्ता पुरस्ताद् भागाः आ एव प्रीणादि प्रीणात्यसोः अथो चक्षुः अथो विद्यसोः चक्षुरेव एवाग्नेः अग्नेः पुरस्तात् पुरस्तात्प्रति भवति दिधार्त भवदि एवम् एवम् वेद वेदावः आपो वा इदम् इदमग्रे ये अग्रे सलिलम् सलिलमासीत् सः सप्रजापतिः प्रजापतिः पुष्करवर्णे प्रजापतिरिति प्रजापतिः पुष्करावर्णे वातो भूतः भूतोलेलायत् अलेलायत् सः सत्प्रतिष्ठाम् प्रतिष्ठाम् न प्रतिष्ठामिति अविन्दत सः स एतत् एतदपाम् अपाङ्कुलायम् कुलायमुष् अपृश्यत्तस्मिन् तस्मिन्नग्निम् अग्निमचिनत अचिनुतत् तदियम् इयमभवत् अभवत्ततः ततो वै वै सप्रति प्रत्यतिष्ठत् अतिष्ठद्याम् याम् पुरस्तात् पुरस्तादुपादधात् उपादधात्तत् उपादधादित्युपादधात् तच्छिरः शिरोभवत् अभवत्सा सा प्राची प्राचीतिकी दक्षिणतः दक्षिणत उपादधात् उपादधात्सः उपादधादित्युपादधात् स दक्षिणः दक्षिणः पक्षः रक्षोऽभवत् अभवत्सा सा दक्षिणा दक्षिणादिग् दिग्याम् याम् पश्चाद् पश्चादुपादधात् उपादधात्तत् उपादधादित्युपादधात् तत्पुच्छम् पुच्छमभवत् अभवत्सा सा प्रतीची प्रतीचिदिग् दिग्याम् यामुत्तरतः उत्तरत उपादधात् उत्तरत इत्यतो दरतः उपादधात् सः उपादधादित्युपादधात् स उत्तरः उत्तरः पक्षः उत्तर इत्यतो दरः पक्षोऽभवत् अभवत् सा सोदीची उदीचीदि दिग्याम् उपादधादित्युपा अदधात् तत्पृष्ठम् पृष्ठमभवत् अभवत्सा सोऽर्ध्वा ऊर्ध्वा दिग् दिगियम् इयम् वै वा अग्निः अग्निः पञ्चे अष्टकः पञ्चे अष्टकस्तस्मात् पञ्चेऽष्टक इति पञ्च इष्टकः तस्माद्यद् यदस्याम् अस्याम् खलन्ति खलन्त्यभिः अभीष्टकाम् सर्वाः सर्वा वै इयम् वयोभ्यः पयोभ्यो नक्तम् पयोभ्य इति वयहाभ्यः रक्तम् दृशे दृशे दीप्यते दीप्यते तस्मात् तस्मादिमाम् इमाम् वयागुंसि इमाम वयागुंसि नक्तम् नक्तम् न नाधि अभ्याससे आसतेयः यदेवम् एवम् विद्वान् विद्वानग्निम् अग्निम् चिनुदे चिनुदे प्रति प्रत्येव एव तिष्ठति तिष्ठत्यभि अभिदिशः दिशो जयति एत्याग्नेयः आग्नेयोवि ययि ब्राह्मणः ब्राह्मणस्तस्मात् ब्राह्मणाय सर्वासु सर्वासु दिक्षु यिक्ष्वर्धुकम् अर्धुकग्स्वाम् स्वामेव एव तत् तद्दिशम् दिशमनो अन्वेति एत्यपाम् वा अग्निः अग्निः कुलायम् कुलायन्तस्माहात् तस्मादापः आपोऽग्निम् अग्निगम्हारुकाः हारुकाः स्वाम् स्वामेव एव तद्योनिम् योनिम् प्रविशन्ति विशन्तीति विशन्ति संवत्सरमुख्यम् संवत्सरमिति संवत्सरम् भृत्वा भृत्वा द्वितीये द्वितीये संवत्सरे संवत्सर आग्नेयम् संवत्सर इति संवत्सरे आग्नेयमष्टाकपालम् अष्टाकपालनिः अष्टाकपालमित्यष्टाकपालम् निर्वपेद् उपेदैन्द्रम् ऐन्द्रमेकादशकपालम् एकादशकपालमित्येकादशाकपालम् वैश्वदेवम् द्वादशकपालम् वैश्वदेवमिति वैश्वदेवम् द्वादशकपालम् वारृहस्पत्यम् द्वादशकपालमिति द्वादशाकपालम् वारहस्पत्यम् चलम् चलुम् वैष्णवम् वैष्णवम् द्विगपालम् त्रिगपालम् तृतीये त्रिकपालमिति द्वेकपालम् तृतीये संवत्सरे संवत्सरे अभिजिताः संवत्सर इति संवत्सरे अभिजिता अभिजितेत्यभिजिताः अष्टाकपालो भवति अष्टाकपाल इत्यष्टाकपालः भवत्यष्टाक्षरः अष्टाक्षरा गायत्री अष्टाक्षरेऽत्यष्टाक्षराः गायत्र्या आग्नेयम् आग्नेयम् गायत्रम् गायत्रम् राजस्सवनम् राजस्वनम् रागस्सवनम् रागस्वनमिति प्रातः सवनम् रागस्सवनमेव रागस्वनमिति प्रातः सवनम् एव तेन तेनदाधार राधारगायत्रीम् गायत्रीम् छन्दः छन्दो यद् यदेकादशकपालः एकादशकपालो भवति एकादशकपाल इत्येकादशाकपालः भवत्येकादशाक्षरा एकादशाक्षरा पृष्टुक एकादशाक्षरेत्येकादशाक्षराः पृष्टुकैन्द्रम् ऐन्द्रम् रैष्टुभम् रैष्टुभम् माध्यन्दिनम् माध्यन्दिनकम् सवनम् सवनम् माध्यन्दिनम् माध्यन्दिनमेव एव सवनम् सवनम् तेन तेन ्रष्टुभम् प्रष्टुभम् छन्दः छन्दो द्वादशकपालः द्वादशकपालो भवति द्वादशकपाल इति द्वादशाकपालः भवति द्वादशाक्षरा द्वादशाक्षरा जगति द्वादशाक्षरे द्विद्वादशाक्षरा जगति वैश्वदेवम् वैश्वदेवम् जागतम् वैश्वदेवमिति वैश्वदेवम् जागतम् तृतीयसवनम् तृतीयसमलम् तृतीयसवनम् तृतीयसबलमिति तृतीयासवनम् तृतीयसमलमेव तृतीयसमलमिति तृतीया सबलम् एव तेन एनदाधार राधारजगदीम् जगदीम् छन्दः छन्दो यत् यद्वारहस्पत्यः वारहस्पत्यश्चरुः चरुर्भवति भवति ब्रह्म ब्रह्म वै वै देवानाम् देवानाम् बृहस्पतिः बृहस्पतिर्ब्रह्म ब्रह्मैव एवतेन एनदाधार राधारेत् तद्वैष्णवः वैष्णवस्त्रिकपालः त्रिकपालो भवति त्रिकपाल इति त्रिकपालः यज्ञः यज्ञो वै वै यज्ञमेव इन्या, इन्या, देवतेन तेनदाधार आधारयद् यत्तृतीये तृतीये संवत्सरे संवत्सरेऽभिजिताः संवत्सर इति संवत्सरे अभिजिता यजते अभिजितेत्यभिजिता यजते अभिजित्यै अभिजित्य यद् अभिजित्याभिजित्यै यत्संवत्सरम् संवत्सरमुख्यम् संवत्सरमिति संवत्सरम् मुख्यम् बिभर्ति विभर्तिमम् इममेव एव तेन तेन लोकम् विस्पृणोति शृणोति यद् द्वितीये संवत्सरे संवत्सरे अग्निम् संवत्सर इति संवत्सरे अग्निम् चिनुते चिनुतेऽन्तरिक्षम् अन्तरिक्षमेव एव तेन तेन स्मृणोति शृणोति तृतीये तृतीये संवत्सरे संवत्सरे यजते संवत्सर इति एव तेन तेन लोकम् लोकग्स्मृणोति स्मृणोत्येतम् एतम् वै वैपरः पर आट्नारः आट्नारः कक्षीवान् कक्षीवागुम् ओषिजः कक्षीवान् इति कक्षीवान् औषिजो वीतहव्यः वीतहव्यश्रायसः वीतहव्य इति भीताहव्यः श्रयसस्त्रसदस्युः त्रसदस्यः पौरुगुत्स्यः पौरुगुत्स्यः प्रजाकामाः पौरुगुत्स्य इति पौर्वगुत्स्यः प्रजाकामा अचिमदः ततो वै वै ते सहस्रकम् सहस्रम् सहस्रकम् सहस्रम् पुत्रान् सहस्रकम् सहस्रमिति सहस्रम् सहस्रम् पुत्रान् अविन्दन्त अविन्दन्त पृथते पृथते प्रजयाः प्रजया पशुभिः प्रजयेति प्राजयः पशुभिस्ताम् पशुभिरिति पशुभिः ताम् मात्राम् मात्रामाप्नोति आप्नोति याम् ते ते गच्छन् अगच्छन् एवम् विद्वान् विद्वामेतम् एतमग्निम् अग्निम् चिनुते चिनुदे प्रजापतिरग्निम् प्रजापतिरिति प्रजापतिः अग्निमचिनुत अचिनुतसः स क्षुरपभिः क्षुरपविर्भूत्वा क्षुरपविरिति क्षुराभिः भूत्वा तिष्ठत् अतिष्ठत्तम् तम् देवाः देवाविभ्यदः बिभ्यतो नोप उपायन्न आयन्ते ते छन्दोभिः छन्दोभिरात्मानम् छन्दोभिरिति छन्दहाभिः आत्मानम् छादयित्वा छादयित्वोप उपायन्न आयन्तत् तच्छन्दसाम् छन्दसां छन्दस्त्वम् छन्दस्त्वम् ब्रह्म छन्दस्त्वमिति छन्दः त्वम् ब्रह्म वै वै छन्दागुंसि छन्दाकुंसि ब्रह्मणः ब्रह्म एतत् एतद्रूपम् रोपण्य यत्कृष्णार्जनम् कृष्णार्जनम् कार्ष्णीः कृष्णाजिनमिति कृष्णार्जनम् कार्ष्णी उपानहुः कार्ष्णी इति कार्ष्णीः उपानः उप उपमुञ्चरे मुञ्चरे छन्दोभिः छन्दोभिरेव छन्दोभिरिति छन्दःभिः एवात्मानम् आत्मानम् छादयित्वा छादयित्वाग्निम् अग्निमुप उपचरति चरत्यात्मनः आत्मनोऽगुंसायै अहिगुंसायै देवनिधि देवनिधिर्वै देवनिधिरिति देवनिधिः वा एषः एषणि निधीयते धीयते यत् यदग्निः अग्निरन्ये अन्ये वा वै वै निधिम् निधिमगुप्तम् निधिमिनिधिम् अगुप्तं अगुप्तम् विन्दन्ति विन्दन्ति नवाः वा प्रति प्रतिप्रजानादिजानाद्युखाम् मुखामा आक्रामति क्रामत्यात्मानम् आत्मानमेव एवाधिपाम् अधिपाम् गुरुरे अधिपामित्यधिवाम् गुरुरेगुप्त्यै गुप्त्याधो अथो खलु अथो, अथो इत्यथो खल्वाहो आहुर्न नाक्रम्याः आक्रम्येति आक्रम्येत्या आक्रम्याः इति नैरृतीः नैरृत्युखा नैरृतीति नैः रति मुखा यद् यदाक्रामेत् आक्रामे निर्वृत्या आक्रामेद आक्रामेदित्या आक्रामेद आक्रामेद आक्रामेत् निर्वृत्या आत्मानम् निर्वृत्या इति निहृत्यैः आत्मानमपि अपि दध्याद् दध्यात् तस्मात् तस्मान्न नाक्रम्या आक्रम्या पुरुषशीर्षम् आक्रम्येत्या आक्रम्यः पुरुषशीर्षमुप पुरुषशीर्षमिति पुरुषशीर्षम् उपदधाति दधाति गुप्त्यै गुप्त्या अथो अथो यथा अथो इत्यथोव यथा ब्रूयाद् ब्रूयादेतत् एतन्मे मे गोपाय गोपायेति इति तादृग् तादृगेव ता एतत् तत्प्रजापतिः प्रजापतिर्वै प्रजापतिरिति प्रजापतिः वा अथर्वा अथर्वाग्निः अग्निरेव एवदध्यङ् अध्यङ्गाथर्वणः अथर्वणस्तस्य तस्येष्टकाः इष्टका अस्थानि अस्थान्येतम् एतगुंह ह वा वदद् तदृषिः ऋषिरभ्यनोवाच अभ्यनोवाचेन्द्रः अभ्यनो वाचेद्यभिः अनूवाच इन्द्रोदधीचः अधीचो अस्थभिः अस्थभिलिति अस्थभिलित्यस्थाभिः इति यद् यदिष्टकाभिः इष्टकाभिरग्निम् अग्निम् चिनोति चिनोति सात्मानम् सात्मानमेव सात्मानमिति एवाज्ञम् अज्ञम् चिनुते चिनुते सात्मा सात्मामुष्मिन् सात्मेति स आत्मा लोके भवति भवति यः यदेवम् वेद वेदशरीरम् शरीरम् वै वा एतत् एतदग्नेः यच्चित्यः चित्य आत्मा आत्मा वै ईश्वादरः वैश्वादरो यच्चिते चिते वै ईश्वादरम् वैश्वादरम् जुहोति शरीरम् शरीरमेव एव सद्गस्कृत्य सद्गस्कृत्याभ्यारोहति अभ्यारोहति शरीरम् अभ्यारोहति आरोहति शरीरम् वै वा एतत् एतद्यजमानः यजमानः सम् सग्गस्कुरुते कृते यत् यदग्निम् अग्निम् चिनुते चिनुरेत् यच्चिरे चिरे वै ईश्वादरम् वैश्वादरम् जुहोति जुहोति शरीरमेव एव सर्गस्कृत्य सर्गस्कृत्यात्मनाः आत्मनाभ्यारोहति अभ्यारोहति तस्मात् अभ्यारोहतीत्यभिः आरोहति तस्मात् तस्य तस्य नावद्यन्ति द्यन्ति जीवन् जीवन्नेव एव देवान् देवानपि अप्येति एति वैश्वानर्या वैश्वानर्यर्चा न चापुरीशम् पुरीशमुप उपदधाति दधाति इयम् इयम् वै वा अग्निः अग्निर्वैईश्वानरः वैश्वानरस्तस्य तस्यैषा एषा चितिः चितिर्यत् यत्पुरीशम् पुरीशमग्निम् अग्निमेव एव वै ईश्वानरम् वैश्वानरम् चिनुते चिनुत एषा वै वा अग्नेः अग्नेः प्रिया प्रिया तनोः तनोर्यत् यद्वै प्रियामेव एवास्य अस्य तनुवम् तनोः वा अवरुन्धे अग्नेर्वै वै दीक्षया दीक्षया देवाः देवा विराजम् विराजमाप्नुवन् विराजमिति वीराजम् आप्नुवन् तिस्रः तिस्रो रात्रीः रात्रीदीक्षितः दीक्षितः स्यात् स्यात् त्रिपदाः त्रिपदा विराट् त्रिपदे तित्रिपदाः विराट् विराजम् विराट् विराट् विराजमाप्नोति विराजमिति वीराजम् आप्नोति षड् षड्वात्रीः रात्रीद्वीक्षितः दीक्षित स्यात् स्यात् षड् षड्वै पार्दवः रवः संवत्सरः संवत्सरः संवत्सरः संवत्सर इति संवत्सरः संवत्सरो विराट् संवत्सर इति संवत्सरः विराट् विराजम् विराट् इति विराट् विराजमाप्नोति विराजमिति वीराजम् आप्नोति दश दशरात्रीः रात्रेर्दीक्षितः दीक्षितः स्यात् स्याद्दशाक्षरा दशा अक्षरा विराट् दशा अक्षरेति दशा अक्षरः विराट् विराजम् विराट् इति विराट् विराजमाप्नोति विराजमिति वीराजम् आप्नोति द्वादश द्वादशरात्रेः रात्रेर्वीक्षितः दीक्षितः स्यात् स्याद्वादश द्वादशमासाः मासाः संवत्सरः संवत्सरः संवत्सरः संवत्सर इति संवत्सरः संवत्सरो विराट् संवत्सर इति संवत्सरः विराड् विराजम् विराट् इति विराजमिति विराजम् आप्नोति त्रयोदश त्रयोदश रात्रीः त्रयोदशे तित्रयः दश रात्रीक्षितः दीक्षितः स्यात् स्यात् त्रयोदश त्रयोदशमासाः त्रयोदशे विराजम् विराट् इति विराट् आप्नोति पञ्चदश पञ्चदश रात्रीः पञ्चदशेति पञ्चादश रात्रिर्देक्षिदः देव स्यात् स्यात् पञ्चदश पञ्चदश वै पञ्चदशेति पञ्चादश वा अर्धमासस्य अर्धमासस्य रात्रयः अर्धमासस्येत्यर्धमासस्य रात्रयोऽर्धमासशः अर्धमासशः संवत्सरः अर्धमासस इत्यर्धमासः संवत्सराः आभ्यते संवत्सर इति संवत्सरः आद्यते संवत्सरः संवत्सरो विराट् संवत्सर इति संवत्सरः विराट् विराजम् विराट् इति वीराट् विराजमाप्नोति विराजमिति वीराजम् आप्नोति सप्तदश सप्तदश सप्तदशेति सब्दादश रात्रे वीक्षितः वीक्षितः स्यात् स्याद्वादश द्वादश मासाः पञ्च पञ्चर्थवः रथवत्सः स संवत्सरः संवत्सरः संवत्सरः संवत्सर विराट् संवत्सर इति संवत्सर विराट् विराजम् विराट् इति विराट् विराजमाप्नोति विराजमिति विराजम् आप्नोति चतुर्विवंशति चतुर्विवंशतिम् रात्रेः चतुर्विवंशतिमिति चतुः विविंशतिम् रात्रेर्दीक्षिदः अर्धमासाः संवत्सरः अर्धमासा इत्यर्धमासाः संवत्सरः संवत्सरः संवत्सर इति संवत्सरः संवत्सरो विराड् संवत्सर इति संवत्सरः विराट् विराजम् विराट् इति विराड् विराड विराड विराजमाप्नोति विराजमिति वीराजम् आप्नोति त्रिगुंशतम् त्रिगुंशदुम् रात्रेः रात्रेर्दीक्षितः दीक्षितः स्यात् स्यात् त्रिगिंशदक्षरा विराड्राजम् विराटिति वीराड् विराजमाप्नोति विराजमिति वीराजम् आप्नोति मासम् मासन्दीक्षिदः एक्षितः स्यात् स्याद्यः यो मासः मासः सः स संवत्सरः संवत्सरः संवत्सरः संवत्सर इति संवत्सरः संवत्सरो विराड् संवत्सर इति संवत्सरः विराड्रिराजम् विराटिति वीराड् विराजमाप्नोति विराजमिति चतुरः चतुरो मासोदीयीक्षितः येक्षितः स्यात् स्याच्चतुरः चतुरो वै वा एतम् एतम् मासः मासो वसवः वसवो बिभरुः अविभरुस्ते ते पृथिवीम् पृथिवीमा प्रति आजयन् अजयम् गायत्रीम् गायत्रीम् छन्दः छन्दोऽष्टौ अष्टौ रुद्राः रुद्रास्ते तेऽन्तरिक्षम् अन्तरिक्षमा आजयन् यजेम् द्रष्टुभम् द्रष्टुभम् छन्दः छन्दो आदित्यास्ते ते दिवम् दिवमा आजयन् अजयम् जगतीम् जगतीम् छन्दः छन्दस्ततः ततो वै वेते ते व्यावृतम् व्यावृतमगच्छन् व्यावृतमिति आवृतम् अगच्छन् श्रेष्ठन् श्रेष्ठ्यन् देवानाम् देवानाम् तस्मात् तस्माद्वादश द्वादशमासः मासो भृत्वा भृत्वाग्निम् अग्निम् चिन्वेद चिन्वेद द्वादश द्वादशमासाः आसा संवत्सरः संवत्सरः संवत्सरः संवत्सरैः संवत्सरः संवत्सरोऽग्निः संवत्सरैः संवत्सरः कर्निश्चित्यः यस्तस्य तस्याहोरात्राणि अहोरात्राणि इष्टकाः अहोरात्राणीत्यहः रात्राणि इष्टका आप्तेष्टकम् आप्तेष्टकमेन आप्तेष्टकमित्याप्ता इष्टकम् येन चिनुते चिनुतेऽथो अथो व्यावृतम् अथो विद्यथो व्यावृतमेव व्यावृतमिजपि आवृतम् एव गच्छति गच्छति श्रैष्ठ्यम् श्रैष्ठ्यम् समानानाम् समानानामिति समानानाम् स्वर्गायपि स्वर्गाय इति सुवभागाय वा एषः एष लोकाय लोकाय चीयदे चीरे यद् यदग्निः अग्निस्तम् संयद् यन्नरोहेत् मारोहेत्स्वर्गाद्मारोहेदित्यनुमारोहेत् स्वर्गादिति सुभागात् लोगाद्यजमानः यजमानो हियेत येत पृथिवीम् पृथिवीमा आक्रमिषम् अक्रमिषम् आक्रमेशं प्राणः प्राणो माह प्राण इति प्राणः मामा माहासीद् आसीदन्तरिक्षम् अन्तरिक्षमा आक्रमिषम् अक्रमिषम् प्रजा प्रजामाह प्रजेति प्राजा मामा माहासीद् आसीद्दिवम् दिवमा आक्रमिषम् अक्रमिषुवः सुपदगन्म अगन्मेति इत्याहैषः एष वै वा अग्नेः अग्नेरम् वा रोहः अन्वारोहस्तेनवारोह तेनैव एवैनम् एनमन्वारोहति अन्वारोहति स्वर्गस्य अन्वारोहति इत्यनु आरोहति स्वर्गस्य लोकस्य स्वर्गस्य यदि सुवहागस्य समष्टि समष्टि समष्ट्यादिति समष्टिः यत्पक्षसंहिताम् पक्षसंविताम् विनुयात् पक्षसंविधामिति पक्षसंविधाम् विनुयात्कनीयागुम्सम् कनीयागुंसम् यज्ञकृतम् यज्ञकृतमुप यज्ञकृतमिति यज्ञाकृतम् उपेयात् इयात्पापीयसी पापीयस्य अस्यात्मनः आत्मनः प्रजा प्रजा स्यात् प्रवेति प्राजा स्याद्वेदिसंविधाम् वेदिसंविधाम् विनोति वेदिसंविधामिति वेदिसंविधाम् ज्यायागुंसम् ज्यायागुंसमेव एव यज्ञकृतम् यज्ञकृतम् वा यज्ञकृतमिति यज्ञाकृतम् उपैति एति न नास्य तस्यात्मनः आत्मनः पापीयसि पापीयसी प्रजा प्रजा भवति प्रजेति प्राजा भवति सहस्रम् साहस्रम् चिन्वेद चिन्वेदप्रथमम् प्रथमम् चिन्वानः चिन्वानः सहस्रसंविदः सहस्रसंहितो वै सहस्रसंहित इति अयम् अयम् लोकः लोक इमम् इममेव एव लोकम् लोकमभि अभिजयते एति द्विषाहस्रम् द्विषाहस्रम् जिन्वेद विषाहस्रमिति द्विसहस्रम् चिन्वेदद्वितीयम् द्वितीयम् जिन्मानः चिन्मानो द्विसाहस्रम् विषाहस्रम् वै द्विषाहस्रमिति द्विसाहस्रम् वा अन्तरिक्षम् अन्तरिक्षमन्तरिक्षम् अन्तरिक्षमेव एवाभि अभिजयते एति त्रिसाहस्रम् त्रिसाहस्रम् तृशाहस्रविदित्रे साहस्रम् चिन्वेदततरीयम् तृतीयम् चिन्वानः चिन्मानस्त्रिसाहस्रः तृशाहस्रो वै तृशाहस्रविदित्रे साहस्रः वा असौ असौ लोकः लोकोऽमुम् अमुमेव एव लोकम् अभिजेति चेति जानुदग्धम् जानुदग्धम् चिन्वेद जानुदग्धमिति जाननुदग्धम् चिन्वेदप्रथमम् प्रथमम् चिन्वानः चिन्मानो गायत्र्या गायत्र्यैव एवेमम् इमम् लोकम् लोकमध्यारोहति अभ्यारोहति नाभिदग्नम् अभ्यारोहदेत्यभि आरोहति नाभिदग्नम् चिन्वीत माभिदग्नमिति नाभिदग्नम् चिन्वेद द्वितीयम् द्वितीयम् चिन्मानः चिन्मानः सृष्टुभा सुष्ठुभैव एवान्तरिक्षम् अन्तरिक्षमभ्यारोहति अभ्यारोहतिग्रीवदघ्नम् अभ्यारोहतेत्यभिः आरोहति ग्रीवदघ्नम् चिन्वीत ग्रीवदघ्नमिति ग्रीवादघनम् चिन्वेत तृतीयम् तृतीयम् चिन्वानः चिन्मानो जगत्या जगत्यैव एवामु अमुम् लोकम् लोकमभ्यारोहति अभ्यारोहति न अग्निम् चित्वा चित्वा रामाम् रामामुप उपेयाद् यादयोनौ योनौ रेतः रेतोधास्यामि धास्यामीति इति न द्वितीयम् द्वितीयम् चित्वा चित्वाऽन्यस्य अन्यस्य स्त्रियम् मुप उपेयात् यान्नत्वा चित्वा काम् काञ्चन क्षमुप उपेयात् याद्रेतः प्रेतोवि वा एतत् एतन्निधत्ते धत्तेजत् यदग्निम् अग्निम् चिनुते चनुतेजत्ेतसा उपेयादित्युपयत् प्रेतसावि द्युर्ध्येत अध्येताथोः अथो खलु अथो इत्यथो खल्वाहुः आहुरप्रजस्यम् अप्रजस्यम् तत् अप्रजस्यमित्यप्राजस्यम् तद्यद् यन्न नोपेयात् उपेयादिति उपेयादित्युपयात् इति यत् यद्रेतसिदौ एतस्य चापिपदधाति एतस्य चापिति वेतः सिचौ उपदधाति ते उपधातीत्युपदधाति ते ते एव यजमानस्य यजमानस्य वेतः एतोऽपिभृतः विभृतस्तस्मात् तस्मादुप उपेयात् याद्रेतसः रे रेतसोस्कन्धाय अस्कन्दाय त्रीणि त्रीणि वाव वावरेतापुंसि पिता पिता पुत्रः पौत्रः यद्वे द्वे रेतस्य जौः द्वे इति रे द्वे रेतस्य च रेतस्य चाविति रेतःसितौ उपदध्याद्रेतः उपदध्यादित्युपादध्यात् रेतोस्य अस्य विच्छिन्द्यात् छिन्द्यात्तिस्रः तिस्र उप उपदधाति दधाति रेतसः रेतसः वाव प्रथमा रेतस्य रेतसिग्वाग् रेतस्यगितिरेतःसिग् वा द्वै वा तस्मात् पश्यन्ति पश्यन्तीमाम् इमाम् पश्यन्ति पश्यन्ति वाचम् वदन्ती वदन्तीमन्तरिक्षम् अन्तरिक्षम् द्वितीयाः द्वितीयाः प्राणः प्राणो वै प्राण इति प्राणः वा अन्तरिक्षम् अन्तरिक्षम् तस्मात् तस्मान्न नान्तरिक्षम् अन्तरिक्षम् पश्यन्ति पश्यन्ति न न प्राणम् प्राणमसौ प्राणमिति प्राणम् असौ तृतीयाः तृतीयाः चक्षुः वा असौ असौ तस्मात् तस्मात् पश्यन्ति पश्यन्त्यमूम् अमूम् पश्यन्ति पश्यन्ति चक्षुः चक्षुर्यजुषा यजुषेमाम् इमां चामूम् अमुञ्च त्रोप उपदधाति दधाति मनसा मनसा मध्यमाम् मध्यमामेषाम् येषाम् लोकानाम् लोकानाम् लप्लैः कृत्या अथोः अथोः प्राणानाम् अथो यद्यथोः प्राणानामिष्टः प्राणानामिति प्राणानाम् यष्टो यज्ञः यज्ञो भृगुभिः भृगुभिराशीर्दाः भृगुभिरिति भृगुभिः आशीर्दा वसुभिः आशीर्दा इत्याशीः इदाः वसुभिस्तस्य वसुभिरिति वसुभिः तस्यते परिष्टस्य इष्टस्य पीतस्य वीतस्य द्रविणा द्रविणेह इह भक्षीय भक्षीयेति इद्याह आह स्तुतशस्त्रे स्तुतशस्त्रे एव स्तुतशस्त्रे इति स्तुताशस्त्रे एव दुहे दुहे पिता पितामादविश्वाः आदर्श्वाच्छिद्रा अच्छिद्रा पदा, पदा धाराः धा अच्छिद्रा उषिजः वृषिजः पदा पदा नु अनुकक्षुः कक्षुः सोमः विश्वविदिति विश्वावित् नेता नेषत् नेषः बृहस्वतिर्था मदानि उक्थामदानि शकुंसिषत् उक्थामदानि इत्युक्था मदानि इत्याह आहैतत् एतद्वै वा अग्नेः अग्नेरुक्थम् उक्थम् उक्थम तेन तेनैव एवैनम् एनमनु अनुशकुंसति शकुंसतीति शकुंसति सूयते वै वा एषः एषो अग्नीनाम् अग्नीनाम् यः य उघायानम् उघायानम् भ्रियते भ्रियदेत् यदधः अधः साधयेत् साधयेद्गर्भाः गर्भाः प्रपादुकाः प्रपादुकाः स्युः अथो यथा अथो विन्यथो यथा सवात् सवात्प्रत्यवरोहति प्रत्यवरोहति तादृग् प्रत्यवरोहतीति प्रति अवरोहति तादृगेव एव तत् तदा सन्दी आसन्दी साधयति साधयति गर्भाणाम् गर्भाणाम् धृत्यैः धृत्या अप्रमादाय अप्रपादाय अथोः अप्रपादायद्गर्प्रपादाय अथो समम् अथो सममेव देवैनम् एवम् करोति करोति गर्भः गर्भो कर वै वा एषः एष यत् यदुःख्यः उख्यो योनिः योनिश्चिक्यम् शक्यञ् यच्छिक्यात् शिक्यादुखाम् रुखाम् निरूहेत् निरूहेद्योनेः निरुहेद् निरु जिनिः निरु ऊहेत् योनेर्गर्भम् अन्यात् षडुद्यामम् षडुद्यामगम् शिक्यम् षडुद्याममिति षड् उद्यानम् शिक्यम् भवति भवति षोढाविहितः षोढाविहितो वै पुरुषः पुरुष आत्मा आत्मा च शिरः शिरश्च चिरत्वारि चत्वार्यङ्गानि अङ्गा अन्यात्मन् आत्मन्नेव एवैनम् एनम् विभर्ति विभर्ति प्रजापतिः प्रजापतिरुवै प्रजापतिरितिप्रजा एषः एष यत् यदग्निः अग्निस्तस्य तस्योखा उखा च चोलोखलम् उलोखलम् च स्तनौः तस्य प्रजाः प्रजा उप प्रजादि प्राजाः उपजीवन्ति जीवन्ते यत् यदुखाम् मुखाम् चोपदधाति उपदधादिताभ्याम् उपदधातीति प्रादधाति एव यजमानः यजमानो अमुष्मिन् अमुष्मिन्लोके लोके अग्निम् अग्निम् दुहे दुहे संवत्सरः संवत्सरो वै संवत्सर इति संवत्सरः वा एषः एष यद् तस्य त्रेधा विहिताः त्रेधा विहिता इष्टगाः त्रेधा विहिता इति त्रेधा विहिताः इष्टगाः प्राजापत्याः प्राजापत्या वै इति प्राजापत्याः वैष्णवैर्वैश्वकर्मणीः वैश्वकर्मणैरहोरात्राणि वैश्वकर्मणैरिति वैश्वकर्मणीः अहोरात्राण्येव अहोरात्राणीति अहोरात्राणि एवास्य तस्य प्राजापत्याः प्राजावत्या राजापत्या प्राजावत्याः यदुख्यम् मुख्यम् बिभर्ति विभर्ति प्राजापत्याः प्राजावत्या प्राजावत्या इति प्राजावत्याः एव तत् तदुप उपधत्ते धर्धयत् यत्समिधः समिध आदधादि समिध इति समिधः आदधाति वैष्णवाः आदधादीत्यादधादि वैष्णवा वै वैवनस्पतयः वनस्पतयो वैष्णवीः वैष्णवीरेव एव तदुप उपधत्ते धर्धयत् यदिष्टकाभिः इष्टकाभिरग्निम् अग्निम् चिनोति चिनोदीयम् वै विश्वकर्मा विश्वकर्मा वैश्वकर्मणीः विश्वकर्मेरिति विश्वाकर्माः वैश्वकर्मणीरेव वैश्वकर्मणैरिति वैश्वाकर्मणीः एव तदुप उपधर्दे धर्दे तस्मात् तस्मादाहो आहुस्त्रिवृत् त्रिवृदग्निः त्रिवृदिवृत् अग्निरिति इति वै वा एतम् एतम् यजमानः यजमान एव यदस्य तस्यान्यः अन्यश्चि नयात् चिनयाद्यम् तन्दक्षिणाभिः दक्षिणाभिर्न राधयेत् राधयेदग्निम् अग्निमस्य तस्य वृञ्जीत वृञ्जीतयः योगस्य तस्याज्ञिम् अग्निम् च नयात् चिनयात्तम् तन्दक्षिणाभिः दक्षिणाभिराधयेत् राधयेदग्निम् अग्निमेव एव तत् तत् शृणोति शृणोतीति शृणोति प्रजापुजलग्निम् प्रजापुजप्रजाभिः अचिनुतर्तुभिः ऋतुभिः संवत्सरम् ऋतुभिर्त्यतोभिः संवत्सरम् वसन्तेन संवत्सरमिति संवत्सरम् वसन्तेनैव एवास्य अस्य पूर्वार्धम् पूर्वार्धमचिनुत पूर्वार्धमिति पूर्वार्धम् अचिनुदग्रीष्मेण ग्रीष्मेण दक्षिणम् दक्षिणम् भक्षम् पक्षम् वरुषाभिः वरुषाभिः पृच्छम् पृच्छकम् शरदाः शरदोत्तरम् उत्तरम् भक्षम् उत्तरमित्युतोत्तरम् पक्षकम् हेमन्तेन हेमन्तेन मध्यम् मध्यम् ब्रह्मणा ब्रह्मणा वै वा अस्य अस्य तत् तत्पूर्वार्धम् पूर्वार्धमचिनुत अशूर्वार्धमिति पूर्वार्धम् अचिनुतक्षत्रेण क्षत्रेण दक्षिणम् दक्षिणम् पक्षम् पक्षम् पशुभिः पशुभिः पुच्छम् पशुभिरिति पशुभिः पुच्छम् विषा विषोत्तरम् उत्तरम् पक्षम् उत्तरमित्यतोत्तरम् पक्षमाशया आशया मध्यम् मध्यम् यः एवम् एवम् विद्वान् विद्वानग्निम् अग्निम् चिनुते चिनुतऋतुभिः ऋतुभिरेव ऋतुभिर्धृतुभिः एवम् एनम् चिनुते चिनुतेऽो अथो एतत् अथो वित्यथो एतदेव एव सर्वम् सर्वमव अववृन्धे वृन्धे शृण्वन्ति शृण्वन्त्येनम् एनमग्निम् अग्निम्िक्यानम् त्रिक्यानमपि अत्यन्नम् अन्नग्निम् रोचते रोचत इयम् इयम् वाव वावप्रथमा प्रथमाचितिः ओषधयो वरस्वदयः वरस्वतयः पुरीशम् पुरीशमन्तरिक्षम् अन्तरिक्षम् द्वितीया द्वितीयावयागुंसि वयागुंसि पुरीशम् पुरेशमसौ असौ तृतीयाः तृतीया नक्षत्राणि नक्षत्राणि पुरेशम् पुरेशम् यज्ञः यज्ञश्चतुर्थी चतुर्थ्ये दक्षिणा दक्षिणापुरेशम् पुरेशम् यजमानः यजमानः पञ्चमी पञ्चमी प्रजा प्रजापुरेषम् प्रजेति प्राजा पुरेषम् यत् यत्त्रिचिदेकम् त्रिजिदेकम् चिन्वेत त्रिजिदेकविचित्रेचितेकम् चिन्वेत यज्ञम् यज्ञम् दक्षिणाम् दक्षिणामात्मानम् आत्मानम् प्रजाम् प्रजामन्तः प्रजामिति या तस्मात् तस्मात् पञ्चजिदेकः पञ्चजिदेकश्चेदव्यः पञ्चजिदेक इति पञ्चाञ्चिदेकः एतद्य एतत् एतदेव एव सर्वम् सर्वज्ञ स्मृणोति स्मृणोति यत् यत्तिस्रः तिस्रश्चितयः चितयस्त्रिवृत् त्रिवृद्धि त्रिवृदि त्रिवृत् यद्वे द्वे द्विपाद् द्वे इति द्वे द्विपाद्यजमानः द्विपादिति द्वीपाद् यजमानः प्रतिष्ठत्यै प्रतिष्ठित्यैपञ्च प्रतिष्ठित्य इति पञ्च चितयः चितयो भवन् भवन्ति पुरुष आत्मानम् आत्मानमेव एव स्पृणोति स्पृणोति पञ्च पञ्चचितयः चितयो भवन्ति भवन्ति पञ्चभिः पञ्चभिः पुरेशैः पञ्चभिरिति पञ्चाभिः पुरेशैरभिः अभ्यूहति ऊहति दश दशसम् सम्पद्यन्ते पद्यन्ते दशा अक्षरः दशा अक्षरो वै दश वै पुरुषः पुरुषो यावान् एव पुरुषः पुरुषस्थम् अग्गस्पृणोदि स्मृणोत्यथो अथो दशा अथो विद्यथो दशा अक्षरा विराड् दश अक्षरेति दशा अक्षरवीराड् अन्नम् विराड् विराड् विराजि विराडिति वीराड् विराज्येव विराजीति वीराजि एवान्नाद्ये अन्नार्ध्ये प्रति अन्नार्घ्यन्नाद्ये प्रतिष्ठति तिष्ठति संवत्सरः संवत्सरो वै संवत्सर इति संवत्सरः वै षष्ठी चितिर्ऋटवः ऋटवः पुरीषम् परीषपुं षट् षट् चितयः शतयो भवन्ति भवन्ति षट् षट्पुरीषाणि पुरीषाणि द्वादश द्वादशसं सम्पद्यन्ते ऋद्यन्ते द्वादश द्वादशमासाः मासाः संवत्सरः संवत्सरः संवत्सरे संवत्सर इति संवत्सरः संवत्सर एव संवत्सर इति संवत्सरे एव प्रति प्रतिष्ठति तिष्ठतीतिष्ठति रोहितो धूम्ररोहितः धूम्ररोहितः कर्कन्धुरोहितः धूम्ररोहित इति धूम्रारोहितः कर्कन्धुरोहितस्ते कर्कन्धुरोहित इति कर्कन्धोरोहितः ते प्राजाव्याः प्राजापद्या बभ्रुः प्राजावत्या इति प्राजापद्याः बभ्रुररुणबभ्रुः अरुणबभ्रुः शुकबभ्रुः अरुणबभ्रुरित्यरुणाबभ्रुः शुकबभ्रुस्ते शुकबभ्रुरिति ते रौद्राः रौद्राश्येतः श्वेतश्येताक्षः श्वेताक्षश्येतग्रीवः श्वेताक्षैदि श्वेताक्षः श्वेतग्रीवस्ते श्वेतग्रीवैदि श्वेतग्रीवः ते पितृदेवद्या आ पितृदेवत्याः तिस्रः पितृदेवत्या इति पितृदेवत्या आहतिस्रः कृष्णाः कृष्णावशाः वशा वारुण्यः वारुण्यस्तिस्रः तिस्रश्वेताः सौर्यः सौर्यो मैद्यावादस्पद्याः मैत्रावालहस्पत्या धूम्रललामाः मैत्रावालहस्पत्या इति मैत्रावालहस्पत्याः धूम्रललामास्तोपराः धूम्रललामा इति धूम्रालरामाः रोपरा इति त्रूपराः प्रश्नस्ति रश्चेन वृश्निः तिरश्चेन प्रश्नेः ऊर्ध्ववृश्निःरश्चयेन वृश्यरितिरश्चेना प्रश्निः ऊर्ध्ववृश्निस्ते ऊर्ध्ववृश्यरित्यूर्ध्वा वृश्निः ते मारुताः मारुताः फल्गोः फल्गो लोहितो लोहितोरणे बलक्षी लोहितोहिताीताः ताः सारस्वत्यः सारस्वत्यः पृषरी पृषति स्थूलपषदि स्थूलपुषदी क्षुद्रपुषदि स्थूलपुषदीति स्थूलापषदि क्षुद्रपुषती ताः क्षुद्रपृषदीति क्षुद्राविषदी ता वै ईश्वरेव्यः वैईश्वदेव्यः स्तिस्रः वैश्वदेव्य इति वैश्वादेव्यः तिस्रश्यामाः श्यामा वशाः वशाः पौष्ण्यः पौष्ण्यस्तिस्रः तिस्रो रोहिणीः रोहिणे वशाः वशा मैत्र्यः मैत्र्य ऐन्द्राबारहस्मत्याः ऐन्द्राबारहस्मत्या रमणनामाः ऐन्द्राबारहस्मृत्या अरुणललामास्तो वराः अरुणललामा इत्यरुणललामाः सूपरा इतिः क्षितिबाहुरन्यदश्चिदिबाहुः श्रितिबाहुरिति श्रितिबाहुः अन्यदस्यति बाहुः समन्दशतिबाहुः अन्यदशति बाहुरित्यन्यतः श्रितिबाहुः समन्दशितिबाहुश्चे समन्तशिबाहुरिति समन्ताशितिबाहुः त ऐन्द्रवाजवाः ऐन्द्रवाजवाः श्रितिरन्ध्रः ऐन्द्रवाजवा इत्यन्द्रवायवाः श्रितिरन्धो अन्यदः श्रितिरन्ध्रः शितिरन्ध्र इति शिथिरन्ध्रः अन्यतशितिरन्ध्रः समन्दशितिरन्ध्रः अन्यतशितिरन्ध्र इत्यन्यतः शिथिरन्धः समन्दषितिरन्ध्रस्ते समन्दषितिरन्ध्र इति समन्द्राशितिरन्ध्रः ते मैत्रावृणाः इति मैत्रावृणाः शुद्धबालः सर्वशुद्धबालः शुद्धबाल इति शुद्धा बालः सर्वशुद्धबालो मणिबालः सर्वशुद्धबाल इति सर्वाशुद्धबालः श्विनाः अश्विनास्तिस्रः तिस्रः शिल्पाः शिल्पावशाः वशा वैश्वदेव्यः ऐश्वस्तिस्रः ऐश्वरादेव्यः तिस्रश्यणीः श्यनीः परमेष्टिने परमेष्टिने सोमा वौष्णाः सोमा बहौष्णाः श्यामललामाः सोमा बहौष्णा इति सोमा वौष्णाः श्यामललामास्तु वराः श्यामललामा इति श्यामललामाः तूपरा इति तू वराः उन्नतऋषभः उन्नत इत्युतो नतः वृषभो वानः आवनस्ते तय इन्द्रावरुणाः वरुणाश्चितिककृत् इन्द्रावर्णा य इन्द्रावरुणाः क्षितिकवच्छितिपृष्ठः क्षितिकुदि तिशितिककृत् शितिपृष्ठशितिभसत् श्रितिपृष्ठः इति क्षितिपृष्ठः क्षितिभसत्ते क्षितिभसदिति क्षितिभसत् तै इन्द्राबारृहस्पत्याः ऐन्द्राबारहस्पत्याश्चितिपात् ऐन्द्राबारहस्पत्या इन्द्राबारहस्पत्याः क्षितिपाच्छित्योष्ठः श्रितिपादिति शिदीपात् शित्योष्ठः श्रितिभ्रुः शित्योष्ठ इति श्रीवोष्ठः क्षितिभ्रुस्ते क्षितिभ्रुरिति क्षितिभ्रुः तदैन्द्रावैष्णवाः ऐन्द्रावैष्णवास्तिस्रः ऐन्द्रावैष्णवा इत्यैन्द्रावैष्णवाः तिस्रः सिद्ध्वाः सिद्ध्वा वशाः वशा वैश्वकर्मण्यः वैश्वकर्मण्यस्तिस्रः वैश्वकर्मण्य इति वैश्वाकर्मण्यः तिस्रो धात्रे धात्रे पुरुषोदराः प्रषोदरा ऐ इन्द्रापौष्णाः प्रषोदरा इति प्रषोदराः ऐन्द्रापौष्णाः श्वेतललामाः ऐन्द्रापौष्णाः इत्यणाः श्वेतललामास्तोपराः शेतललामा इति श्वेताललामाः तूपरा इति तूपराः कर्णास्त्रयः त्रयो यामाः यामाः सौम्याः सौम्यास्त्रयः त्रयश्रुतिङ्गाः श्रुतिङ्गा अग्नगे ए अग्न यविष्ठाय त्रयः त्रया नकुलाः नकुलास्तिस्रः तिस्रोरोहिणीः रोहिणीस्त्रिव्यः त्र्यव्यैदि त्रियव्यः तावसूनाम् वसूनाम् तिस्रः तिस्रोऽरुणाः अरुणादित्यौह्यः इत्यौह्यस्ताः ता रुद्राणाम् सोमैन्द्राः सोमैन्द्रा सोमैन्द्रा इति सोम ऐन्द्राः तूपरा इति दूपराः शुण्ठाश्रयः वैष्णवाः वैष्णवा अधिरोधकर्णाः अधिरोधकर्णाश्रयः अधिलोधकर्णाधिरोधकर्णाः त्रयो विष्णवे विष्णवोरुक्रमाय उरुक्रमाय लप्सुदिनः उरुक्रमायऽपिरुक्रमाय लप्सुदिनस्त्रयः त्रयो विष्णवे विष्णव गुरुगायाय गुरुगायाय पञ्चाभीः गुरुगायाय त्रिरोगाजाय पञ्चाभीस्तिस्रः पञ्चावीरिति पञ्चाभिः तिस्र आदिद्यानाम् आदित्यानाम् त्रिवत्साः त्रिवत्सास्तिस्रः त्रिवत्सा इति त्रिवत्साः तिस्रोऽङ्गिरसाम् अङ्गिरसाम् गौरललामास्तुपराः गौरवलामा इति गौरवललामाः तूपरा इति तूपराः इन्द्रायराज्ञेः राज्ञेत्रयः त्रयःश्रितिपृष्ठाः श्रितिपृष्ठा इन्द्राय श्रितिपृष्ठा इति श्रिपृष्ठाः इन्द्रायाधिराजाय अधिराजाय त्रयः अधिराजाय इतिराजाय त्रयः श्रिकबुदः शितिकबुद इन्द्राय श्रितिकुद इति श्रीकमुदः इन्द्रायस्वराज्ञेः स्वराज्ञेत्रयः स्वराज्ञे स्वराज्ञे त्रयः श्रितिभसलः श्रितिभसलस्तिस्रः श्रुतिभसल इति श्रीभसलः तिस्रस्तुर्यौ ह्यः तुर्यौह्यः साध्यानाम् साध्यानाम् तिस्रः तिस्रः पृष्ठौ ह्यः पष्ठौ ह्यो विश्वेषाम् विश्वेषाम् देवानाम् देवानामाग्नेन्द्राः आग्नेन्द्राः कृष्णल्लामाः कृष्णरामास्तोपराः कृष्णल्लामा इति रोहिदयिता इन्द्राण्ये रोहिदयितादिरोहिता एताः इन्द्राण्यै त्रयः कृष्णैताः कृष्णैताः कुह्वैः कृष्णैतादिकृष्णायताः कुह्वैः त्रयः त्रयोरुणैताः अरुणैतास्तिस्रः अरुणैता धेनवो राकायै राकायै त्रयः त्रयो नद्वाहः नड्वाः आज्ञा वैष्णवा रोहितललामाः आज्ञा वैष्णवा इत्या आज्ञा वैष्णवाः रोहितललामास्तूपराः रोहितललामा इति रोहिताललामाः स्तूपरा इति तूपराः सौम्यास्त्रयः त्रयः पिशङ्गाः प्रशङ्गाः सोमाय सोमाय राज्ञे राज्ञे त्रयः त्रयः सारङ्गाः सारङ्गाः पार्जन्याः पार्जन्या नभोरूपाः नभोरूपा इति नभः रूपाः तिस्रोजाः अजामलुहाः मलुहा इन्द्राण्यै इन्द्राण्यै तिस्रः तिस्रो मेष्यः मेष्य आदित्याः आदित्या द्या वापृथिव्या आ द्यावापृथिव्या मालङ्गा आह द्यावापृथिव्या इति द्यावापृथिव्या इति तूपराः वारुणास्त्रयः त्रयः कृष्णललामाः कृष्णललामा वरुणाय कृष्णललामा इति कृष्णाललामाः वरुणाय राज्ञेः राज्ञे त्रयः त्रयो रोहितललामाः रोहितललामा वरुणाय लोहितललामा इति रोहिताललामाः वरुणाय रिषादसे रिषादसे त्रयः रिषादस इति रिषादसे त्रयो रुणललामाः अरुणललामाः शिल्पाः अरुणललामा इत्यरुणाललामाः शिल्पाश्रयः त्रयो वैश्वदेवाः वैश्वदेवाश्रयः वैश्वदेवा इति वैश्वादेवाः त्रयः कृष्णयः कृष्णयः सर्वदेवत्याः सर्वदेवत्या ऐन्द्रासूराः सर्वदेवत्या इति सर्वा देवत्याः ऐन्द्रासूराः श्वेतललामाः ऐन्द्रासूरा इत्यन्द्रासूराः श्वेतललामास्तूपराः श्वेतललामा इति श्वेतललामाः तूपरा इति दूपराः सोमायस्वराज्ञेः स्वराज्ञे नो बाहौ स्वराज्ञ इति स्वराज्ञेः अनोवाहावनड्वाहौ अनोवाहावित्कलः बाहौ इन्द्राग्निभ्यामोजोदाभ्याम् इन्द्राग्निभ्यामितीन्द्राग्नीभ्याम् ओजोदाभ्यामुष्टारौ ओजोदाभ्यामित्योजहादाभ्याम् उष्टारामिन्द्राग्निभ्याम् इन्द्राग्निभ्याम् बलदाभ्याम् इन्द्राग्निभ्यामितीन्द्राग्नीभ्याम् बलदाभ्याम् सीरवाहौ बलदाभ्यामिति बलदाभ्याम् सीरवाहाववी सीरवाहाविति सीरावाहौ अवी द्वे अवी इत्यवीयि द्वे धेनु द्वे हि द्वे धेनो भौमि धेनु इति धेनु भौमि दिग्धः भौमि इति भौमि दिग्ध्यो बडभे दिग्धे इति द्रेभ्यः वडभे द्वे वडभे द्वे धेनु द्वे इति द्वे धेनो धेनु इति धेनु भौमि वैराजी भौमि इति भौमि वैराजी पुरुषि वैराजी इति वैराजी पुरुषि द्वे पुरुषि इति पुरुषि द्वे धेनु द्वे इति द्वे धेनो भौमि धेनु भूमि वायवे भौमि इति भौमि वायव आरोहणवाहौ आरोहणवाहावनड्वाहौ आरोहणवाहाविद्यारोहणावाहौ लड्वाहौ वारुणी वारुणी कृष्णे वारुणी इति वारुणी कृष्णे वशे कृष्णे इति कृष्णे वशे अराड्यौ वशे इति वशे अराड्यौ दिव्यौ दिव्यावृषभौ वृषभौ परिमरौ परिमराविदि परिमरौ एकादशप्रातः प्रादर्भव्याः गव्याः वषवः पशव आलभ्यन्ते लभ्यन्ते छकलः छगलः कल्माषः कल्माषः किकिदीविः किकिदीविर्विदीगयः विदीगजस्ते हे त्वाष्ट्राः त्वाष्ट्राः सौरीः सौरीर्नव नव श्वेतावशाः वशा अनोबन्ध्या आः अनोबन्ध्याः भवन्ति अनोबन्ध्या इत्यनोबन्ध्या आः भवन्त्याग्नेयः अश्वः ऐन्द्राज्ञन्द्राग्नः आश्विनस्ते ते विशालयूपे विशालयूपाः विशालयूप इति विशालयूपे आलभ्यन्ते लभ्यन्त इति लभ्यन्ते विषङ्गास्त्रियः त्रयो वासन्दाः वासन्दाः सारङ्गाः सारङ्गास्त्रयः त्रयोग्रैष्माः त्रयीष्माः स्पृषन्दः पृषन्दस्त्रयः त्रयो वार्षिकाः वार्षिकाः स्पृशयः कृष्णयस्त्रयः त्रयःशारदाः शारदाः स्पृश्यशक्थाः क्थाश्रयः वृष्णिसक्था इति प्रश्निसक्थाः त्रयो हैमन्दिकाः हैमन्दिका अवलिप्ताः अवलिप्ताश्रयः अवलिप्ता इत्यवलिप्ताः त्रयश्चैशिराः श्रीशिराः संवत्सराय संवत्सराय निवक्षसः संवत्सराय इति संवत्सराय निवक्षस इति निवक्षसः पञ्चमकाण्डे षष्ठः प्रश्नः समाप्तः